ब्रह्माण्डपुराणं पूर्वभागम् अध्यायं ट्वेन्टिसेवन् दारुवनप्रवेशभस्मस्नानविधिः ऋषय ऊचुः भूयसूदमहाबुद्धे कथयस्वमहात्मनः महादेवस्य माहात्म्यं श्रोतुं कौतूहलं च नः कथं दारुवने देवऋषिशङ्खनिषेविते चकारवेशं विकृतं येन बुद्धा महर्षयः ज्ञात्वा च ते महादेवं ततो भ्रान्ता ह्यचेतसः प्रसादार्थं नैषां तुष्टः पुनर्भवः एतत्सर्वं यथा वृत्तं देवदेवेन चेष्टितं तत्सर्वं कथयस्वेह त्वन्नो बुद्धिमदां वरः सुत उवाच श्रूयतामभिधास्यामि धर्ममेदमदन्ध्रिताः निर्मिदं देवदेवेन भक्तानामनुकम्पया पुराकृतयुगे विप्राशृङ्गे हिमवदः देवदारुवनं रम्यं नानाद्रुमलदाकुलम् बहवो मुनयस्तत्र तपस्यन्तो मुनिव्रताः शैवालभोजना केचित् केचिदन्तर्जलेशयाः केचिदभ्रावकाशास्तु पादाङ्गुष्टाग्रधिष्ठिताः दन्तोलूकलिनश्चान्ये त्वस्मकुट्टास् तथा परे स्थानवीरासनाश्चान्ये मृगयर्यरतास्तथा कालं नयन्ति तपसा तीव्रेण च महाधियः तदस्तेषां प्रसादार्थदेवस्तद्वनमागधः भस्मपाण्डुरदिग्धाङ्गो नग्नो विकृतलक्षणः विकृतस्रस्तकेशश्च करालदशनस्तथा उल्मुखव्यग्रहस्तश्च रक्तपिङ्गललोचनः शिष्णं सवृषणं तस्य रक्तगैरिकसन्निभं मुखमङ्गारवर्णेन शुक्लेन विभूषितम् क्वचित् सहसदे रौद्रं क्वचिद् गायति विस्मितः क्वचिन्नृत्यदि शृङ्गारी क्वचिद्रौदी मुहुर्मुहुः नृत्यन्दरुधुस्तूर्णं पत्न्यस्तेषां विमोहिताः आश्रमेऽभ्यागदो भीक्ष्णम् याचते च पुनः पुनः भार्या कृता तथा रूपा प्रगर्जन्वै करनादं ननाद च तथा वञ्चितुमारब्धो हासयन् सर्वदेहिनः तदस्ते मुनय क्रुद्धा क्रोधेन मोहिदामायया सर्वे शपितुं समुपस्थिताः करवद्गायसे यस्मात् करस्तस्माद्भविष्यसि राक्षसो वा पिशाचो वा दानवो वाधवा तथा यथा वैच्छंस्तथा सर्वे क्रुधास्ते मुनयः े पुशासैस्तु विविधैस्तं देवं भुवनेश्वरं तपांसि तेषां सर्वेषां प्रत्याहन्यन्तशङ्करे यथादित्यप्रकाशेन तारका नभसि स्थिताः नद्योदन्ते प्रकाशेन तद्वत् तेजांसि शङ्करे श्रूयते ऋषिशापेन ब्रह्मणसुमहात्मनः समृद्धश्रेयःसां यौनिर्यज्ञो वैना समाप्तवान् भृगोरपि च शापेन विष्णुः परमवीयवान् प्रादुर्भावान् दशप्राप्तो दुःखितश्च सदा कृतः इन्द्रस्यापि हि धर्मज्ञशिष्णं स वृषणं पुरा ऋषिणा गौदमेनोर्व्यां क्रुद्धेन विनिपादितं गर्भवासो वसूनां शापेन विहितस्तथा ऋषीणाञ्चैव शापेन न कुशः क्षीरोब्दश्च समुद्रश्च ह्यपेयो ब्राह्मणैः कृतः धर्मश्चात्र प्रशब्दो वै माण्डव्येन महात्मना येदे चान्ये च चा बहवो यादनाञ्च समागताः वर्जयित्वा विरूपाक्षं देवदेवं महेश्वरम् एवं किमो हितास्तेन न च बुद्ध्यन्तशङ्करं तदस्ते ऋषयः सर्वे परस्परमधा ब्रुवन् न चायं विधिरस्माकं गृहस्थानां विधीयते ब्रह्मचर्यरतानां च वने वा यदीनां वा तथा धर्मो नायं दृष्ठः कथञ्चन अनयस्तु महानेश येनायं मोहितो द्विजाः लिङ्गं प्रपादयस्वैतन्नायं धर्मस्तपस्विनां वदस्ववाच मधुरं वस्त्रमेकं समाश्रय त्याजिते चत्वया त्वया तद पूजा पूजामवाप्स्यसि ऋषीणां तद्वच श्रुत्वा भगवान् भगनेत्रः उवाच श्लक्ष्मया वाचा, वाचा प्रकसन्निव शङ्करः न शक्यमिदमस्माकं लिङ्गं पादयितुम् बलाद ब्रह्मादि दैवतैः सर्वैः किमुतान्यैस्तपो धनैः पादयेयमकं चैदल्लिङ्गं भो द्विजसतमाहा आश्रमे तिष्ठवागच्छ वाक्यमित्येवते ब्रुवन् एवमुक्तो महादेव प्रदृष्ठेन्द्रियचेष्ठितः पश्यम तत्रर्दे प्रभु कृदे भवे। तथा लिंगे प्रादुर्भावो न जाये व्याकुम च प्रकाशेद किंचन सपदे चिष पवक नक्षत्राणि ग्रहाश्चैव विपरीता विजज्ञिरे सन्तानार्थप्रवृत्तानां ऋषीणां विभवात्मनां क्रतवो न व्यवर्तन्त ऋतुकालाभिगामिनां ते चरति पुनर्धर्मं निर्ममा निरहङ्कृताः नष्टप्रभाववीर्याश्च नाष्टा तेजस एव च धर्मे चैव मतिस्तेषां तदा न तेदु सर्वे समागम्य ब्रह्मलोकमुपागताः ब्रह्मणो भवनं गत्वा दृष्ट्वा पुष्पगसम्भवं पादयोः पतिताः सर्वे शिवृत्तान्तमुचिरे विकटस्तब्धकेशश्च करालदशनस्तथा उलूकव्यग्रहस्तश्च रक्तपिङ्गललोचनः शिष्णं स वृषणं तस्य रक्तं गैरिकमण्डितम् स्नुषाणां च दुहितॄणां पुत्रीणां च वर्तमानस्ततः पार्श्वे विपरीताभिलाषतः उन्मत्त इति विज्ञायसोऽस्माभिरवमानितः आकृष्टस्ताडितश्चाभिलिङ्गं चाप्यस्य चोद्धृतम् तस्य क्रोधप्रसादार्थं वयं ते शरणं गताः एतत्कार्यं न जानीमस्तन्नो ब्रूहिपितामह ऋषीणां तद्वच श्रुत्वा ध्यानाद् चेश्वरं प्रत्युवाच ततो ब्रह्मा वाक्यं च सुसमाहितः यश महादेवो विज्ञेयस्तु महेश्वरः न तस्य परमं किञ्चित् पदं समधिगम्यते देवानां च ऋषीणाञ्च पितॄणां चैव स प्रभुः सहस्रयुगपर्यन्ते प्रलये सर्वदेहिनां संहरत्येष भगवान् कालो भूत्वा महेश्वरः येश चैव प्रजाः सर्वा सृजत्येकस्वतेजसा येष चिक्री च वक्षोजश्रीवत्सकृतलक्षणः ये गीकृतयुगे चैव त्रेधायां क्रतुरुच्यते द्वाबरे चैव कालाग्निर्धर्मके रुद्रस्य मूर्तयस्तिस्रो विज्ञेयाश्चापि पण्डितैः तमोह्यग्निरजो ब्रह्म सत्वं विष्णुप्रकाशकः मूर्तिरेका स्मृता यस्य दिग्वासाश्च शिवाह्वया यत्र समन्वितं तस्माद्देवं देवदेवमीशानं प्रभुमव्ययम् आराधयद विप्रेन्द्रा जिदक्रोधा जिदेन्द्रियाः दृष्टं वै यादृशं तस्य लिङ्गमासीन्महात्मनः तादृक्प्रतिकृतिं कृत्वा शूलपाणिं प्रपद्यत ततो द्रक्ष्यध देवेशं दुर्दर्शमकृतात्मभिः यं दृष्ट्वा सर्वमज्ञानमधर्मश्च प्रमश्यति ततः प्रदक्षिणं कृत्वा ब्रह्माणममितौजसम् आस्तिदा वीतशोकास्ते देवदारुवने ततः आराधयितुमारब्धा ब्रह्मणा कथितं यथा तण्डिलेषु विचित्रेषु पर्वतेषु गुकास्सु च नदीनां च विचित्रेषु पुलिनेषु शुभेषु च एवं संवत्सरे पूर्णे वसन्ते समुपस्थिते तदेव रूपमास्थाय देवस्तद्वनमागतः कुसुमिद बहुपादपालदागं भ्रमरगणैरुपगीयमानखण्डं परभृदपरिपूर्णचारुशब्दं प्रविशदितद्वनमाश्रमं तद्वनमाश्रमं महेशः ततस्थं मुनयः सर्वे तुष्टुवु सुसमाहिताः अद्भिर्विवधमाल्यैश्च धूपमण्डैस्तथैव सपत्नीकामहाभागाः सपुत्रा सपरिच्छदाः मृदुभस्ते तदा वाग्भिर्गिरीशमिदमब्रुवन् अज्ञानादेवदेवस्य यदस्माभिगनुष्ठितं कर्मणा मनसा वाचा तत्सर्वं क्षन्तुमर्हसि चरितानि विचित्राणि गुह्यानि गहनानि च ब्रह्मादीनां च देवानां दुर्विज्ञेयानि शङ्कर स्वागतं तेन जानीमो गतिं नैव च नैव च सोऽसि नमोऽस्तु ते महात्मानो देवदेवं महेश्वरम् नमो भवाय भव्याय भावनायोद्भवाय च अनन्तबलवीर्याय भूतानां पदये नमः संहर्त्रे कविशाङ्गाय अव्ययायव्ययाय च चा। गङ्गासलिलधाराय चाधाराय गुणात्मने त्र्यम्बकाय त्रिनेत्राय त्रिशूलवरधारिणे कन्दर्पाय नमस्तुभ्यं नमोस्तु परमात्मने शकराय वृषाङ्गाय गणानां पदये नमः दण्डहस्ताय कालाय पाशहस्ताय वै नमः वेदमन्त्रप्रधानाय शतजिह्वाय ते नमः भोदं भव्यं भविष्यच्च स्थावरञ्जङ्गमञ्जयद तव देहात्समुत्पन्नं देवः सर्वमिदं जगद शे भोपाहि च भद्रं ते नरः तत्सर्वं भगवानेव गुरुदे योगमायया एवं स्तुत्वादु तु मुनयः प्रकृष्टेनान्तरात्मना या चन्दे तपसा युक्ताः पश्यामस्त्वां यथा पुरा प्रकृतिस्तञ्चदे लिङ्गं तथैवास्तु यथा पुरा नमो दिग्वाससे नित्यं किङ्गिणीजालमालिने विकटाय अरूपायसुरूपाय कराल करालवदनाय च विश्वरूपाय ते नमः कटङ्कटाय स्वाहाकाराय वै नमः सर्वप्राणात्मने तुभ्यं गुणदेहाय वै नमः दुर्गन्धाय शूलहस्ताय वै नमः स्वयं नीलश्रिखण्डाय श्रीकण्डाय नमो नमः नीलखण्डाय देवाय चिदाभस्माङ्गरागिणे गुणत्रयात्मने तुभ्यं नमो विश्वाय वेधसे स्मशानवासिने नित्यं प्रेदरूपाय वै नमः त्वं ब्रह्म सर्वदेवानाम रुद्राणां नीललोहितः आत्मा च सर्वभूतानां साङ्ख्यैः पुरुष उच्यते पर्वतानां महामेरुर्नक्षत्राणां च चन्द्रमाः ऋषीणाञ्च वसिष्ठस्त्वं देवानां वासवस्तथा ओङ्कार सर्ववेदानां ज्येष्ठसाम च आरण्यानां च सर्वेषां सिंहस्त्वं परमेश्वरः ग्राम्याणां वृषभश्चापि भगवाल्लोकपूजितः सर्वथा वर्तमानोऽपि यो, यो भावो भविष्यति त्वामेव तत्र पश्यामो ब्रह्मणा यथा कामक्रोधस्त लोभश्च विषादो मद एव च प्रसीद परमेश्वर महासंहरणे प्राप्ते त्वया देवकृतात्मना करं ललाडे सम्पीड्य तेना अर्चुर्भवृता तस्माद्निश्ते बहवो विकता चाण्भू स्थावरा चरा चह्य प्राणिस्ते सुदेन वानिना दह्यम धव सुरेश्वर त्वं च लोकहितार्थाय भूतानि परिषिञ्चसि महेश्वरमहाभागप्रभो शुभनिरीक्षक आज्ञापयवयं नाथकर्तारो वचनं तव रूपकोटिसहस्रेषु रूपकोटिशतेषु च अन्तं गन्तुं न शक्तास्म तव देव नमोऽस्तु दे। ततस्तु भगवानीश इदं वचनमब्रवीत् येहिमे मे भस्मनिरदा भस्मना दग्धकिल्बिषाः यथोक्तकारिणो दान्ता विप्राध्यानपरायणाः न तान् परिवदेद् विद्वान्न च ता न धि न चेमानप्रियं ब्रूया दमुत्रेहितार्थवान् यस्तान् निन्दति मूढात्मा महादेवं स निन्दति यस्वेदान् पूजये नित्यं स पूजयदि शङ्करं एवं चरथ भद्रं वो मत्तःसिद्धिमवाप्स्यथ अतुलमिह महातम प्रणाशं शिवकथितं परमं विधिं विदित्वा अपगदभयलोभमोहचिन्ता सहपतिता महसा शिरोभिरुः तदस्ते मुदिता प्रकृतिस्ते महेश्वरे गन्धोदकैः सुशुद्धैश्च कुशपुष्पविमिश्रितैः स्नापयन्ति महाकुम्भैरद्भिर्देवं महेश्वरं गायन्ति विविधैर्गुह्यैर्कुङ्कारैश्चापि सुरैः नमो दिग्वाससे देव किङ्किणीध्राय वै नमः अर्धनारी शरीराय साङ्ख्ययोगप्रवर्तिने घनवाहनकृष्णाय गजचर्मनिवासिने कृष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने सुरचितचित्रविचित्रकुण्डलाय सुरचितमाल्यविभूषणाय तुभ्यं मृगपतिवरचर्मवाससेदे पृथुवरशोच नमोस्तु शङ्कराय भूयश्च स्थापिते लिंगे लोकानां हितकाम्यया वर्णधर्मपराश्चैव चेरुस्ते मुनिसत्तमाः ततस्तान् स मुनीन् प्रीतप्रत्युवाच महेश्वरः प्रीतोऽस्मि युष्मत्तपसा वरं वृणुदमुव्रताः तदस्ते मुनयः सर्वे प्रणिपत्य महेश्वरं भृग्वङ्गिरवशिष्टश्च विश्वामित्रस्तथैव च गौतमोऽत्रिः सुकेशश्च पुलस्थ्यः पुलहक्रतुः मरीचिकश्चपश्चापि संवर्तश्च महातपाः ते प्रणम्य महादेवमिदं वचनमब्रुवन् भस्मस्नानं च नग्नत्वं वामत्वं प्रतिलो मदा सेव्याः सेव्यत्वं तु विभो ये ददिच्छामवेदितुं भगवानुवाच एतद्ध सम्प्रवक्ष्यामि कथा सर्वस्वमद्य वै अग्नेर्ह्यहं सोमयुधः सोमश्चाग्निमुपश्रुतः कृता असकृच्चाग्निना दग्धं जगत्थावरजङ्गमं भस्मसाध्यं हि तत्सर्वं पवित्रमिदमुत्तमं भस्मना वीर्यमास्ताय भूतानि परिषिञ्चति अग्निकार्यं च यत्कृत्वा करिष्यति च त्रियायुषं भस्मना मम वीर्येणमुच्यते सर्वकिल्बिषैः भासयत्येव वा शुभं वासयते च यद् तत्क्षणात् सर्वपानां भस्मेधि परिकीर्त्यते ऊष्म पाः पिधरो देवा वै सोमसम्भवाः अग्नि सर्वं जगस्तावर जंगमं अहमग्निर्महा ते जा सोमश्चैषा ममाम्बिका अहमग्निश्च सोमश्च प्रकृत्या पुरुषस्वयं तस्माद्भस्ममहाभागा मद्वीर्यमिति चोच्यते स्ववीर्यं वपुषा धारयामिदि धारयामीति वैस्थितिः तदा प्रभृतिलोकेषु रक्षार्थमशुभेषु च भस्मना क्रियते रक्षासूदिकानां गृहेषु च भस्मस्नानविशुद्धात्मा जिदक्रोधो जिदेन्द्रियः मत्समीपः सुपागम्य न विनिवर्तते व्रतं पाशुपदं योगं कापालं योगनिर्मिदं पूर्वं पाशुपदं ह्येदन्निर्मिदं तदनुत्तमम् शेषाश्चाश्रमिणः सर्वे पश्चात्सृष्टा स्वयम्भुवा सृष्टिरेषा मया सृष्टा लज्जामोकभयात्मिका नग्ना ये वि जायन्ते मानवालोके सर्वे जायन्त्यवास सखा इन्द्रियैरजितैर्नग्ना दुकूलेनाभिसंवृताः तैरेव संवृतो गुप्तो न वस्त्रङ्गारणं स्मृतं क्षमाधृतिरहिंसा च वैराग्यं चैव सर्वशः तुल्यौ मानापमानौ च तावणमुत्तमम् भस्मपाण्डुरदिग्धाङ्गोऽध्यायते मनसा भवम् यद्यकार्यसहस्राणि कृत्वा स्नायति भस्मना तत्सर्वं दहदे भस्म यथाग्निस्तेजसा वनं तस्माद्यत्नपरो भूत्वा त्रिकालमपि यः सदा भस्मना कुरुते स्नानं गाणपत्यं स गच्छति संकृत्य च क्रधोन् सर्वान् गृहीत्वा मृतमुत्तमम् ध्यायन्ति ये महादेवं लीनास्तद्भावभाविताः उत्तरेणादपन्थानं ते मृतत्वमवाप्नुयुः दक्षिणेनादपन्थानं ये श्मशानानि भेदिरे अणिमा महिमा गरिमा पञ्चमी चैव षष्ठं प्राकाम्यमेव च ईशित्वं च वशित्वं च ह्यमरत्वं च ते गदाः इन्द्रादयस्तदा देव कामिकं व्रतमास्थिताः ऐश्वर्यं परमं प्राप्य सर्वे प्रथितते जसः व्यपगदमदमोहमुक्तरागास्तमेरकजदोषविवर्जितस्वभावाः परिभवमिदमुत्तमं विदित्वा पशुपदिदयिदमिदं व्रतं चरध्वं यः पडेद्वै शुजिर्भूत्वा श्रद्धधानोजितेन्द्रियः सार्वपापविशुद्धात्मा रुद्रलोकं स गच्छति इति श्रीब्रह्माण्डे महापुराणे वायुप्रोक्ते पूर्वभागे द्वितीयेऽनुषङ्गपादे दारुवनप्रवेशभस्मस्नानविधिर्नाम सप्तविंशतितमोऽध्यायः ओ